श्रीहरये नमः अथ चतुस्त्रिंशोऽध्यायः श्रीशुक उवाच एकधा देवयात्रायां गोपालजातकौतुकाः अनोभिरनडुद्युक्तये प्रययुस्तेऽम्बिका वनं तत्र सरस्वत्यां देवं पशुपतिं विभुम् आनर्चुर्हणैर्भक्त्या देवीं चन्द्रपतेम्बिकां गावो हिरण्यं वासांशे मधुमद्वन्दमादृताः ब्राह्मणि द्यो धः सर्वे देवो नः प्रीयतामिति ऊषु सरस्वतीरे जलं प्राशदृतव्रताः रजनीं तामहाभाग नन्द सुनन्द दश्चिन्महानहिस्तस्मिन् विपिनेति बुभुक्षितः यदृश्चया गतो नन्दं शयानम्बुरघोग्रसीत स शुक्रोसाहिनाग्रस्त कृष्णकृष्णमहानयं सर्पो माग्रसते ताद प्रपन्नं परिमोचय तस्य श ग्रन्थितं श्रुत्वा गोपालासकसोतिताः ग्रस्तं च दृष्ट्वा विभ्रान्ता सर्पं विव्यधुमुल्मुखैः अलाते दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः तमस्पृशत्पदापेत्य भगवान् सात्वतां पतिः स वै भगवतः श्रीमत्पादस्पर्श हताशुभः बीजे सर्वबुर्हित्वा रूपं विद्याधरार्चितं तम् अपृच्छत् हृषिकेश प्रणतं समुपस्थितं दीव्यमानेन वपुषा पुरुषं हे ममालिनं को भवान् परया लक्ष्म्या रोचतेऽद्भुतदर्शणः कथं गतिं वा प्रापितो वशः सर्प सुदर्शन इति श्रुतः श्रियास्वरूपसम्पत्या विमानेनाचरं दिशः ऋषीन्विरूपानङ्गिरस प्रकाशं रूपदर्भितः तैरिमां प्रापितो प्रलब्धैस्वेन पाप्मना शापो कृतस्थै करुणात्मभिः यदहं लोकगुरुणा पदा स्पृष्टो हुता शुभः तं त्वाहं भवभीतानां प्रपन्नानां भयापकम् आब्रुश्चेशापनिर्मक् पात स्पर्शातमिवहन् प्रपन्नोऽस्मि महायोगिन्महापुरुषसत्पते अनुजानीहि मां देव सर्वलोकेश्वरेश्वरान् ब्रह्मदण्डात् विमुक्तोऽहं सद्यस्तेऽच्युतदर्शनात् यन्नामग्रग्नखिलान् श्रोत्रोणात् आत्मानमेव च सत्यः पुनाति भूयस्तस्य स्पृष्टः इत्यनुज्ञाभ्यधाशार्हं परिक्रम्याभिवन्द्य च सुदर्शनो मोचितः निशाम्य कृष्णस्य तदात्मवैभवं व्रजौ कसो विस्मितचेतसस्ततः समाप्य तस्मिन् नियमं पुनर्व्रजम् निपाययुस्तत्कथयन्त कदाचिदथ गोविन्दो रामश्च अद्भुतविक्रमः विजह्रतुर्वनिराद्र्यां मध्यौ गौव्रजयोषिताम् उपगीयमानौ ललितं श्रीजनैर्भक्तसौहृदैः स्वलङ्कृतानुलिप्ताङ्गौ षड्विणौ विरजोऽम्भरौ निशामुखं मानयन्तौ उदि दोटुपतारकं मल्लिकागन्तमत्तालीजोष्टं कुमुतवायुना जगतुः सर्वभूतानां मनश्रवणमङ्गलं तौ कल्पयन्तौ युगमत्स्वरमण्डलमूर्छितं गोप्यस्तद्गीतमाकर्ण्य मूर्छितानाविध नृप श्रंसद्दुकूलमात्मानम् शस्तत्केजस्रजं ततः एवं विक्रीडतो स्वैरं गायतो सम्प्रमत्तवत् सङ्गशूट इति ख्यातो धनधानुचरोऽभ्यगात् तयोर्निरीक्षतो राजन्स्तन्ना तं प्रमदा जनं क्रोसन्तं कालयामास दिश्चुधीश्चामशङ्कितः क्रोसन्तं कृष्णरामेति विलोक्यस्वपरिग्रहं यथाघातस्युनाग्रस्ता प्रादरौ अन्वधावता मा वैष्टेति अभयारावौ असेदतुस्तं तरसा त्वरितं गुह्यकाधमं सवीक्षतावनुप्राप्तौ कालं मृत्यो इवो द्विजन् विसृज्य स्त्रीजनं मूढ प्राद्रवज्जीवितेच्छया तमन्वधावत् गोविन्दो यत्र रत्नं तस्थौ रक्षन् स्त्रियो बलः अविदूरविवाभ्येत्य शिरस्तस्य दुरात्मनः जघारमुष्टिनैवाङ्ग सखषूामणिं विभुः सङ्गशूटं निहत्यैवं मणिं माधाय अग्रजाय अदधात् प्रीत्या पश्यन्तीनां च योषिताम् इति महापुराणे दशमस्कन्ते पूर्वार्थे सङ्कटवधो नाम चतुर्द्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज कि जै